नारदश्च जगौ तत्र तुम्बुरुश्च महाद्युतिः विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः रमयन्ति स्म तान् सर्वान् यज्ञकर्मान्तरेष्वथ इतिहासपुराणानि आख्यानानि च सर्वशः ऊचुर्वै शब्दशास्त्रज्ञा नित्यम् कर्मान्तरेष्वथ भेर्यश्च मुरजाश्चैव मड्डुका गोमुखाश्च ये शृङ्गवंशाम्बुजाश्चैव श्रूयन्ते स्म सहस्रशः लोकेऽस्मिन् सर्वविप्राश्च वैश्या शूद्राश्च सर्वशः सर्वे म्लेच्छा सर्ववर्णासादिमध्यान्तजास्तथा नानादेशसमुद्भूतैर्नानाजातिभिरागतैः पर्याप्तैव लोकोऽयम् युधिष्ठिरनिवेशने भीष्मद्रोणादयः सर्वे कुरवः स सुयोधनाः वृष्णयश्च समग्राश्च पञ्चालाश्चपि सर्वशः यथार्हम् सर्वकर्माणि चक्रुर्दासा येवं प्रवृत्तो इव क्रतौं प्रवृत् यजस् धीमता शुशुभे च महाबा सोम से क्रुथ वस्त्रण कंबला निष्केमजा भूषण प्रददौ तत्र सततं धर्मराजो युधिष्ठिरः यानि तत्र महीपेभ्यो लब्धं वा धनमुत्तमं तानि रत्नानि सर्वाणि विप्राणां प्रददौ तदा कोटिसहस्रं प्रददौ ब्राह्मणानां महात्मनां न करिष्यति तं लोके कश्चिदन्यो महीपतिः याजकाः सर्वकामैश्च सततं तत्रुपूर्धनैः व्यासम् धौम्यञ्च प्रयतो नारदम् च महामतिम्